नमः सहमानाय सहमानाय नमो नमः सहमानाय निव्याधिने निव्याधिने सहमानाय नमः सहमानाय निव्याधिने सहमानाय निव्याधिने निव्याधिने सहमानाय सहमानाय निव्याधिन आव्याधिनीनामा व्याधिनीनान्निव्याधिने सहमानाय सहमानाय निव्याधिन आव्याधिनीनाम् निव्याधिन आव्याधिनीनामाव्याधिनीनान्निव्याधिने निव्याधिन आ <surg 127> धिनीनाम् पतये पतय आव्याधिनीनान्निव्याधिने निव्याधिन ना आव्याधिनीनाम् पतये निव्याधिनैरिणि व्याधिने आव्याधिनीनाम् पतये पतय आव्याधिनीनामा नमो नमस्पतय आव्याधिनीनामा व्याधिनीनाम् पतये नमः आव्याधिनीनामित्या पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमः ककुभाय ककुभाय नमो नमः ककुभाय निसङ्गिणे निसङ्गिणे ककुभाय नमो नमः ककुभाय ककुभाय निसङ्गिणे निशङ्गिणे ककुभाय ककुभाय निशङ्गिणेस्ते नानागस्ते नानानिशङ्गिणे ककुभाय ककुभाय निशङ्गिणेस्ते नाना निशङ्गिणे नागस्ते नाना निषङ्गिणे संगिने नानाम् तेनाम् पतये पतयेस्ते नागस्तेनाम् पतये नमो नमस्पतयेस्ते नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो निषङ्गिणे निषङ्गिणे नमो नमो निषङ्गिण इषुधिमत इषुधिमते निषङ्गिणे नमो नमो निषङ्गिण इषुधिमते निषङ्गिण इषुधिमत इषुधि मते निशङ्गिणे निषङ्गिण इषुधि मते तस्कराणाम् तस्कराणामिषुधिमते निषङ्गिणे निषङ्गिण इषुधि मते तस्कराणाम् निषङ्गिण इषुधि मते तस्कराणाम् तस्करामिषुधिमत इषुधि मते तस्कराणाम् पतये पतये तस्करामिषुधिमत इषुधि मते तस्कराणाम् पतये इषुधिमत इतिषुधि मते तस्कराणाम् पतये पतये तस्करान्तस्कराणाम् पतये नमो नमस्पतये तस्कराणान्तस्कराणाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो वञ्चते वञ्चते नमो नमो वञ्चते परिवञ्चते परिवञ्चते वञ्चते नमो नमो वञ्चते परिवञ्चते वञ्चते परिवञ्चते परिवञ्चते वञ्चते वञ्चते परिवञ्चते स्तायुनागस्तायूनां परिवञ्चते वञ्चते वञ्चते परिवञ्चते स्तायूना परिवञ्चते स्तायोगस्तायूनाम् परिवञ्चते परिवञ्चते स्तायूनाम् पतये पतये स्तायोनाम् परिवञ्चते परिवञ्चते पतये परिवञ्चत इति परि स्तायूनाम् पतये पतयेस्ताय नागस्तायुनाम् पतये नमो नमस्पतयेस्तायोनागस्तायुनाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो निचेरवे निचेरवे नमो नमो निचेरवे परिचराय परिचराय नि चेरवे नमो नमो निचेरवे परिचराय निचेरवे परिचराय परिचराय नि चेरवे निचेरवे परिचरायारण्यानामरण्यानां परिचराय नि निचेरवे परिचरायारण्यानाम् निचेरव इति नि चेरवे परिचरायारण्यानामरण्यानाम् परिचराय पतये पतयेरण्यानाम् परिचराय परिचरायारण्यानाम् पतये कोडलिचरायेति परि चराय अरण्यानाम् पतये पतयेरण्यानामरण्यानाम् पतये नमो नमस्पतयेरण्यानामरण्यानाम् पतये नमः परये नमो नमस्पतये पतये नमो नमः नमो नमः नमस्रकाविभ्यस्रगावेभ्यो नमो नमस्रगावेभ्यो जिघागुंसद्भ्यो जिगागुं सद्भ्यस्रकाव्यभ्यो नमो नमस्रकाव्यभ्यो जिघागुम् सद्भ्यः सृकाविभ्यो जिघागुम् सद्भ्यो जिघागुम् सद्भ्यश्रृकाविभ्यविभ्यो जिगागुम् सद्भ्यो मुष्णतामुष्णताञ्जिघागुम् सद्भ्यश्रुकाविभ्यस्रिकाविभ्यो जिगागुम् सद्भ्यो मुष्णता सृकाविभ्य इति सृकाविभ्यः जिघागुम्सद्भ्यो मुष्णतामुष्णताञ्जिघागुम् सद्भ्यो जिघागुम्सद्भ्यो मुष्णताम् पतये पतयेमुष्णताञ्जिघागुम् सद्भ्यो जिघागुम् सद्भ्यो मुष्णताम् पतये जिघागुम् सद्भ्य इति जिघागुम् सत् यः natam pataye pataye mushnata mushnata pataye namo namaspataye mushnata mushnata pataye namaha pataye namo namaspataye pataye namo namaha namo namaha नमोऽसि मद्भ्योऽसि मद्भ्यो नमो नमो नमोऽसि मद्भ्यो नक्तम्भ्यो नक्त नक्तमसि मद्भ्योऽसि मद्भ्यो नक्तञ्चरद्भ्यश्चरद्भ्यो नक्तमसि मद्भ्योऽसि असिमद्भ्य यहा। भः नक्तञ्चरद्भ्यश्चरद्भ्यो नक्तम् नक्तञ्चरद्भ्यः प्रकृन्तानाम् प्रकृन्ताञ्चरद्भ्यो नक्तम् नक्तञ्चरद्भ्यः प्रकृन्ताना चरद्भ्यः प्रकृन्ता प्रकृन्तानाम् चरद्भ्यश्चरद्भ्यः पतये पतये प्रकृन्तानाम् चरद्भ्यश्चरद्भ्यः पतये चरद्भ्य इति चरत् ह्यः प्रकृन्तानाम् पतये पतये प्रकृन्तानाम् प्रकृन्तानाम् पतये नमो नमस्पतये प्रकृन्तानाम् प्रकृन्तानाम् पतये नमः प्रकृन्तानामिति प्र पतये नमो नमःपतये पतये नमो नमः नमो नमः नम उष्षि न उस्नीशिन, उष्षिणे नमो नम उष्णीषिणे गिरिचराय गिरिचरायोष्मेषिणे नमो नम उष्षिणे गिरिचराय उष्णेषिणे गिरिचराय गिरिचरायो स्मिषिण उष्णेषिणे गिरिचराय कुलुञ्चनां कुलुञ्चना गिरिचरायोषिण उष्षिणे गिरिचराय कुलुञ्चना गिरिचराय कुलुञ्चानां कुलुञ्चना चराय गिरिचराय कुलुञ्चानाम् पतये पतये कुलुञ्चानाम् गिरिचराय गिरिचराय कुलुञ्चानाम् पतये गिरिचरायेति गिरिचराय कुलुञ्चानाम् पतये पतये कुलुञ्चानाम् कुलुञ्चानां पतये नमो नमस्पतये कुलुञ्चानाम् कुलुञ्चानाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमः इषुमद्भ्य इषुमद्भ्यो नमो नम इषुमद्भ्योऽधन्वाविभ्योऽधन्वाविभ्य इषुमद्भ्यो नमो नम इषु मद्भ्योऽधन्वाविभ्यः इषुमद्भ्योऽधन्वाविभ्योऽधन्वाविभ्य इषुमद्भ्य इषुमद्भ्योऽधन्वाविभ्यश्च च धन्वाविभ्य इषुमद्भ्य इषुमद्भ्योऽधन्वाविभ्यश्च इषुमद्भ्य इतीषुमत् ह्यः धन्वाविभ्यश्च च धन्वाविभ्यो धन्वाविभ्यश्च वो वश्च धन्वाविभ्यो वः धन्वाविभ्य इति धन्वावि ह्यः चरो वश्च नमो नमो वश्च नमः वो नमो नमो वो वो नमो नमः नमो नमः नम आतम् वानेभ्य आतम् वानेभ्यो नमो नम आतम् वानेभ्यः प्रतिदधानेभ्यः प्रतिदधानेभ्य आतम् वानेभ्यो नमो नम आतम् वानेभ्यः प्रतिदधानेभ्यः ः प्रतिदधानेभ्यः प्रतिदधानेभ्य आतम् बाणेभ्य च प्रतिदधानेभ्य आतम् वानेभ्य आतम् वानेभ्यः प्रतिदधानेभ्यश्च ृणवानेतिदने प्रतिदधने प्रतिदधाने वो वेभ्य प्रतिदधाने वहा प्रतिदनेे प्रतिदने श वो वस्त्रवो नमो नमो वस्त्रवो नमः वो नमो नमो वो वो नमो नमः नमो नमः नम आयच्छद्भ्य आयच्छद्भ्यो नमो नम आयच्छद्भ्यो विसृजद्भ्यो विसृजद्भ्य आयच्छद्भ्यो नमो नम आयच्छद्भ्यो विसृजद्भ्यः आयच्छद्भ्यो विसृजद्भ्यो विसृजद्भ्य आयच्छद्भ्य आयच्छद्भ्यो विसृजद्भ्यश्च च विसृजद्भ्य आयच्छद्भ्य आयच्छद्भ्यो विसृजद्भ्यश्च आयच्छद्भ्य इत्यायच्छत् विसृजद्भ्यश्च च विसृजद्भ्यो विसृजद्भ्यश्च वो वश्च विसृजद्भ्यो विसृजद्भ्यश्च वः विसृजद्भ्य इति विसृजत् यः च वो वश्च वो नमो नमो वश्च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमोऽद्भ्यो नमो नमोऽस्यो विद्यद्भ्यो विद्भ्यो नमो नमो यद्भ्यो विद्यद्भ्यः अस्यद्भ्यो विद् यद्भ्यो च विद्भ्योऽद्भ्योऽद्भ्यो विद्वद्भ्यश्च अस्यद्भ्य इत्यस्यत् ह्यः विद्यद्भ्यश्च च विद्यद्भ्यो विद्यद्भ्यश्च वो वश्च विद्यद्भ्यो विद्यद्भ्यश्च वः इति विभ्यत् ह्यः च वो नमो नमो वश्च च वो नमः वो नमो मो नमः नमो नमः नमः आसीनेभ्यः आसीनेभ्यो नमो नमः आसीनेभ्यस्ययानेभ्यस्ययानेभ्यः आसीनेभ्यो नमो नमः आसीनेभ्यस्ययानेभ्यः आसीनेभ्यः शानेभ्यः शयानेभ्य आसीनेभ्य आसीनेभ्यः शानेभ्यश्चषयानेभ्य आसीनेभ्य आसीनेभ्यः शनेभ्यश्च शयानेभ्यस्तदशयानेभ्यः शयानेभ्यस्तवो वस्तुशयानेभ्यश्च यानेभ्यस्तवः तवो वस्वो नमो नमो वस्तवो नमः वो नमो नमो वो भो नमो नमः नमो नमः नमःस्वपद्भ्यः स्वपद्भ्यो नमो नमःपद्भ्यो जाग्रद्भ्यो जाग्रद्भ्यःस्वपद्भ्यो नमो नमः स्वपद्भ्यो जाग्रद्भ्यः स्वपद्भ्योजाग्रद्भ्योजाग्रद्भ्यः स्वपद्भ्यः स्वपद्भ्योजाग्रद्भ्यश्च च जाग्रद्भ्यःस्वपद्भ्यः स्वपद्भ्यो जाग्रद्भ्यश्च स्वपद्भ्य इति स्वपत् ह्यः जाग्रद्भ्यश्च जाग्रद्भ्यो जाग्रद्भ्यश्च वो वस्थजाग्रद्भ्यो जाग्रद्भ्यस्तवः जाग्रध्य इति जाग्रत् ह्यः च वो वस्त्वो नमो नमो वस्तच वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमस्तिष्ठद्भ्यस्तिष्ठद्भ्यो नमो नमस्तिष्ठद्भ्यो धावद्भ्यो धावद्भ्यस्तिष्ठद्भ्यो नमो नमस्तिष्ठद्भ्यो धावद्भ्यः तिष्ठद्भ्यो धावद्भ्यो धावद्भ्यस्तिष्ठद्भ्यस्तिष्ठद्भ्यो धावद्भ्यश्च च धावद्भ्यस्तिष्ठद्भ्यस्तिष्ठद्भ्यो धावद्भ्यश्च तिष्ठद्भ्य इति तिष्ठत् भः भ्यश्च च धावद्भ्यो धावद्भ्यश्च वो वश्च धावद्भ्यो धावद्भ्यश्च वः धावद्भ्य इति धावत् ह्यः च वो वश्च च वो नमो नमो वश्च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमः सभाभ्यः सभाभ्यो नमो नमः सभाभ्यः सभा पदेभ्यः सभाभ्यो नमो नमः सभाभ्यः स सभाभ्यः सभापतिभ्यः सभापतिभ्यः सभाभ्यः सभाभ्यः सभापतिभ्यश्च च सभापतिभ्यः सभाभ्यः सभाभ्यः सभापतिभ्यश्च सभापतिभ्यश्च च सभापतिभ्यः सभापतिभ्यश्च वो वश्च सभापतिभ्यः वहा सभापरिभ्य इति सभापतिभ्यः च वो वश्च च वो नमो नमो वश्च च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमो, नमो, नमो अश्वेभ्योऽस्वेभ्यो नमो नमो, नमो। अश्वभ्यो स्वपदिभ्यो स्वपतिभ्यो स्वेभ्यो नमो नमो अश्वेभ्यो स्वपदिभ्यः अश्वेभ्यो स्वपतिभ्यो स्वपतिभ्यो स्वेभ्यो स्वपतिभ्यश्च तथा स्वपतिभ्यो स्वेभ्यो स्वेभ्यो स्वपतिभ्यश्च अश्वपतिभ्यश्च चाश्वपतिभ्योश्वपतिभ्यश्च वो वश्चाश्वपतिभ्योश्वपरिभ्यश्च वः अश्वपरिभ्य इत्यस्वपतिभ्यः च वो वश्च वो नमो नमो वश्च च वो नमः वो नमो नमो वोभो नमः नम इति तमः नमः सहमानाय सहमानाय जनो नमः सहमानाय सहमाना ने